ब्रह्माण्डपुराणं पूर्वभागम् अध्यायम् तर्टीन् कालसद्भाववर्णनं सुत उवाच ब्रह्मणसृजदः पुत्रान् पूर्वं स्वायम्भुवेन्धरे पात्रेभ्यो जज्ञिरे तस्य मनुष्यासुरदेवताः पितृवन्मन्यमानास्तं जिरेपितरोऽपि च तेषां निसर्गः प्रागुप्तः समासाच्छ्रूयतां पुनः देवासुरमनुष्यांश्च सृष्ट्वा ब्रह्माभ्यमन्यद पितृवन्मन्यमाना वै जज्ञिरेऽस्योपक्षतः मध्वा दयषडृतवः पितृं स्तान् परिचक्षते ऋतवः पितरो देव इत्येषा वैदिकी श्रुतिः मन्वन्तरेषु सर्वेषु ह्यदीतानागतेषु वै येते स्वायम्भुवे पूर्वमुत्पन्नाश्चान्तरेषु भे अग्निष्वात्तास्मृता नाम्ना तथा बर्हिषधश्च अयज्वानस्तथा तेषा मासन्ये गृहमेधिनः अग्निष्वात्तास्मृतास्ते वै पितरो नाहिताग्नयः यज्वानस्तेषु ये त्वा हृदा बर्हिषदस्ते वै पितरस्त्वग्निहोत्रिणः ऋतभः पितरो देवा शास्त्रेऽस्मिन्निश्चयं गदाः मधुमाधवौ रसौ ज्ञेयौ च शुष्मिणौ नभाश्चैव नभस्यश्च जीवा वेदा उदाहृदौ युषश्चैव तथोर्जश्च स्वधा वन्दावुदाहृतौ सहश्चैव सहस्यश्च घोरा वेदावुदाहृतौ तपश्चैव तपस्यश्च मन्युमन्दौ दुशैशिरौ कालावस्थासु षट्स्वेरे मासाख्या वैव्यवस्थिताः इमे च ऋतव प्रोक्ताश्चेदनाच्छेदनेषु वै ऋतवो ब्रह्मणपुत्रा विज्ञेयास्तेऽभिमानिनः मासार्धमासस्थानेषु स्थानिनौ ऋतवो मदाः स्थानानां व्यतिरेकेण ज्ञेयास्तानाभिमानिनः अहोरात्राणि मासाश्च ऋतवश्चायनानि च संवत्सराश्च स्थानानि कामाख्याख्यभिमानिनाम् एतेषु स्थानिनो ये तु कालावस्थाव्यवस्थिताः तत्स र्वण्यस्तिधयः सन्ध्याः पक्षा मासार्धसंमिताः निमेषाश्च कलाकाष्ठा मुहूर्ता दिवसाः क्षयाः द्वावर्धमासौ मासस्तु चाप्ययनं द्वे यने दक्षिणोत्तरे संवत्सरसमेतश्च स्थानान्येदानि स्थानिनां ऋतवस्तु निमेः पुत्रा विज्ञेयास्ते तथैव षट् ऋतुपुत्रा स्मृताः पञ्च प्रजास्वार्थवलक्षणाः यस्माच्चैवार्तवेभ्यस्तु जायन्ते स्थाणुजङ्गमाः आर्तवाः पितरस्तस्माद्धृतवश्च पितामहाः समेतास्तु प्रसूयन्ते प्रजाश्चैव प्रजापतेः तस्मात् स्मृतः प्रजानां वै वत्सरः प्रपितामहः स्थानेषु स्थानि नोख्ये देस्थानात्मानः प्रकीर्तिताः तदाख्या तत्सत्त्वाश्च तदात्मानश्च ते स्मृताः प्रजापति स्मृतो मतः संवत्सर सुदुह्यग्निहृत इत्युच्यते बुधैः ऋता रुता तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः मासा षडर्थवो ज्ञेयास्तेषां पञ्चर्तव स्मृताः द्विपदां च दुष्पदां चैव पक्षिणां सर्वदामपि स्थावराणाञ्च पञ्चानां पुष्पं कालार्तवं स्मृतं ऋदुत्वमार्तवत्वं च पितृत्वं च प्रकीर्तितम् इत्ये पितरो ज्ञेया ऋतवश्चार्तवाश्च सर्वभूदानि सर्वभूतानि तेभ्यो यदृदुकालाद्विजज्ञिरे तस्मादे हि पितर आर्तवा इति न श्रुतं मन्यन्तरेष्विहत्वेदे स्थिता कार्यकारुक्ता ऐश्वरियाव्याप्य संस्था स्थानभिमानो चेदे तिषं तीस प्रसंग अग्निस्वाता बर्षिष पिदी था पुनः जे स्वता पितृभ्यस्तु कन्े लोक विश्रुते मेना धारणी चैव याभ्यां धृतमिदं जगद ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे पितरस्ते निजे कन्ये धर्मार्थं प्रददुःशुभे अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेनादुमानसी धारणी मानसी चैव कन्या बर्हिषदां स्मृदा मेरोस्तां धारणीं नाम पत्न्यार्थं वा सृजन्शुभाम् पितरस्ते बर्हिषदस्मृता ये सोमभायिनः अग्निष्वा तास्तु तां मेना पत्नीमवदे ददुः उबहूदा स्मृदा ये वै तद्दौहित्रान्निबोधत मेनाहिमवदः पत्नी मैनाकं सा व्यजायत गङ्गां सरिद्वरां चैव पत्नीया लवणो दधेः मैनाकस्यात्मजक्रौ जक्रौ यदस्मृदः यदस्मृतः पत्नी धारणीपत्नी दिव्यौषधि समंधम मंदर सुषुवे पुत्रं स्रक विश्रुता वेला चयतीृती चा यदि विदु धाश्चवा यनी विधाति स्मृता स्वायम्भुवेन्धरे पूर्वं ययोर्वै कीर्तिधाः प्रजाः सुषुवे सागराद्वेला कन्यामेकामनिन्दिदां सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः सवर्णायां सुधा जादा दशप्राचीनबर्हिषः सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः तेषां स्वायम्भुवो दक्षपुत्रत्वं जग्मिवान्प्रभुः त्रयम्पकस्याभिशापेन चाक्षुषस्यान्तरे मनोः ये दच्छ्रुत्वा तद्धत्सूदमपृच्छर्चां शपायनिः उत्पन्नः स कथं दक्षोह्यभिशापाद्भवस्य तु चाक्षुषस्यान्तरे पूर्वं तन्नः प्रब्रूहि पृच्छताम् इत्युक्तकथयामास सुतो दक्षाश्रयां कथां शांश पायनिमां मन्त्र्य त्र्यम्बकाश्चापकारणम् सुद उवाच दक्षस्यासन्सुदाह्यष्टौ कन्या हा कीर्तिता मया स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे ततस्त्वभ्यर्चिताः सर्वाण्यवस्संस्थाः पितुर्गृहे तासां ज्येष्ठा सदी नाम पत्नी या त्र्यम्बकस्य वै सुत उवाच दक्षस्या संसुदाक्ष्यष्टौ कन्याया कीर्तिता मया स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे ततस्त्वाभ्यर्चिता ता सर्वाण्यवसंस्थाः पितुर्गृहे तासां ज्येष्ठासदी नाम पत्नीया त्र्यम्बकस्य वै नाजुहावात्मजां वै दक्षो रुद्रमभिद्विषन् अकरोत्सन्नतिं दक्षे न कदाचिन्महेश्वरः जामादाशुरे तस्मिन् स्वभावात् तेजसि स्थितः ततो ज्ञात्वा सदि सर्वान्यवसंस्ताः पितुर्गृहे जगामसाप्यनाहूदा सदि तत्स्वपितुर्गृहं ताभ्यो हिनां पिता चक्रे सत्याः पूजामसम्मतां तदो ब्रवीत् देवी क्रोधा दमर्शिदा यवीयसीभ्योऽप्यथमां पूजां कृत्वा मम प्रभो असत्कृत्य पिधर्मान् त्वं कृतवानसि गर्हितम् अहं ज्येष्ठा मां सत्कर्तुमर्हसि एवमुक्तो ब्रवीदेनां दक्षसंरलोचनः त्वत् श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम तासां चैव दुभर्तारस्ते मे बहुमदा सती ब्रह्मिष्ठा सुतपस्काश्च महायोगास्सुधार्मिकाः गुणैश्चैवाधिका श्लाख्यास् सर्वे ते वसिष्ठो त्रिः पुलस्त्यश्च ह्यङ्गिरा पुलः क्रदुः भृगुर्मरीचिश्च तथा श्रैष्ठा जामादरो मम यस्मान् मां स्पर्धन्ते शर्वः सदा चैवावमन्यते तेन विभूषामि प्रतिकूलो भवः इत्युक्तवांस्तदा दक्षसम्प्रमूढेन चेदसा शापार्थमात्मनश्चैव ये चोक्ता परमर्षयः तदोक्तापितरं सा वै क्रुद्धा देवीदमब्रवीद वाङ्मनः कर्मभिर्यस्मादधुष्टां मां विगर्हसे तस्मात्यजाम्यहमिमं देहं ताद तवात्मजम् तदस्तेनावमानेन सती दुःखादमर्शिदा अब्रवीद्वजनं देवि नमस्कृत्य स्वयंभुवे यत्राहमुपपद्ये च पुनर्देहेन भस्वदा तत्राप्यहमसम्भूदा संभूदा सम्बोधार्मिकादभि गच्छेयं धर्मपत्नीत्वं त्र्यम्बगस्यैव धीमतः तत्रैवाधसमासेना युक्तात्मानं समादधे धारयामास चाग्नेयीं धारणां मनसात्मनः तद आत्मसमु सयुना समुदी सर्वागेभ्यो विसृत वस्ता भस् सत्कुप्रुत निधन सत्याोधशूलृद संवाद चबुद्वा या था तत् क दक्ष्य चुषीण चुकोपन्भु रुद्र उवाचाव लोकाना भूर्लोकस्वादिच्यम सदा धारयिष्या निदेशि अस्यां क्षिदौ हृदा लोका सर्वे तिष्ठं दिभास्वराः तानहं धारयामीह सततं च तदाज्ञया चादुर्वर्ण्यं हि देवानां ते चाप्ये भुञ्जते नाहं तैः सह भोक्ष्ये वै तदो दास्यन्ति ते पृथक् यस्मादवमदा दक्षमत्कृते नागसा सदी प्रशस्ताश्चेतराः सर्वाः भर्तृभिः सह तस्माद्वैव स्वदे प्राप्ते पुनरेदे महर्षयः ्यं ते एवै वै मम यज्ञह्ययो निचाः हुदे वै ब्रह्मणा शुक्रे चाक्षुषस्यान्तरे मनोः अभिव्याहृत्य सर्वां स्तान् दक्षं चैवाशपत्पुनः भविता मानुषो राजा चाक्षुषस्यत्वमन्वये प्राचीनबर्किषः पौत्रः पुत्रश्चैव प्रचेतसां दक्ष नाम नादु मारिषायां जनिश्यसि कन्यायां शाकिनां त्वं वै प्राप्ते वैवस्वतेन्तरे विघ्नं तत्राप्यहं तुभ्यमाचरिष्यामि दुर्मदे धर्मयुक् े चदे कार्ये ये कस्मिंस्तु दुरात्सते सुद उवाच तदुपसृत्य दक्षस्तु रुद्रं सोभ्य शपत्पुनः यस्मात् त्वं मत्कृते निष्टमृषीणां कृतवानसि तस्मात् सुरैर्यज्ञे नत्वाम् त्वां वैद्विजाः वै द्विजाः हुत्वा हृदिं तव क्रूरक्ष्यपस्प्रक्ष्यन्ति कर्मसु इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयाद ततो देवैः सतैः सार्धं नेज्यते ततो भिव्याहृदो दक्षो रुद्रेणामि तेजसा स्वायं भुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ज्ञात्वा गृहपदेर्दक्षो यत् जानामीश्वरं प्रभुं समस्तेनेहयज्ञेन सो यजद्दैवतैः सह अध सदिया दुप्राप्ते यादुप्राप्ते वैवस्वदेन्तरे मेनायां तामु मां देवीं जनयामास यादुदेवी सदी पूर्वमासीत् पश्चादुमा भवद सदा पत्नी भवस्यैषा न तया मुच्यते भवः मरीचं कश्यपं देवी यथा दिदिरनुव्रता यथा नारायणं श्रीश्च मखवन्तं शचीयथा विष्णुं कीर्तिरुषा सूर्यं वसिष्ठं चाप्यरुन्धति नैतास्तु विजहत्येदान् भर्तृन्देव्यः कदाचन आवर्तमानाकल्पेषु जायन्ते तैः पुनः एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृपः जज्ञे तदाभिशापेन द्वितीय इति भृगवादयश्चये सप्त जज्ञिरे च महर्षयः आद्ये त्रेधायुगे पूर्वं मनोर्वैवस्वतस्य च देवस्य मखतो यज्ञे वारुणीं बिभ्रतस्तनुम् इत्येषोऽनुशयो ह्यासीत्तयोर्जात्यन्तरानुगः प्रजापदेश्च दक्षकता तस्माशहकार्यो वैरे कदाचन जागत भवित शुभाशुभ्यां न मुंदे विपस्चिता। कार्यपिता समनुक्रांता। कथा पापप्रमोचनी या दक्षमधिकृत्येह त्वया पूर्वं प्रचोदिता पितृवंशप्रसङ्गेन कथा ह्येषा प्रकीर्तिता पितृणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम् त्रेदायुगमुखे पूर्वमासन् स्वायम्भुवेन्तरे देवायामायिधि ख्यादाः पूर्वं ये यज्ञसूनवः प्रधीता ब्रह्मणपुत्रा अजत्वा दजितास्तु ते पुत्रा नामदु भुवस्य मानसाः तेषां यदो गणाख्येदे देवानां स्तुत्रयस्मृताः छन्दजास्तुत्रयस्त्रिंशत् सर्गे स्वयम्भुवस्यः यदुर्ययातिर्देवौ द्वौ वीवधस्रासदो मदिः विभासश्चक्रदुश्चैव प्रयातिर्विश्रुतो द्युतिः वायव्यः संयमश्चैव असमश्चोग्रदृष्टिश्च सुनयोथ शुचिश्रवाः केवलो विश्वरूपश्च सुदक्षो मधुपस्तथा तुरीय इन्द्रयुक्त्यैव युक्तो जनिमा विश्वदेवा च जविष्ठोमिधवानपि जरो विभुर्विभावश्च सरुचिकोथ दुर्दिहः श्रुतिर्घृणानोध बृहच्छुक्राद्वादशकीर्तिताः आसन् स्वयंभुवस्य इदे चान्दरे सोमपायिनः दीप्तिमन्दो गणाह्येदे वीर्यवन्दो महाबलाः तेषामिन्द्रस्तदाख्यासीत् प्रथमे विश्वभुक्प्रभुः असुराये तदा तेषामासन् दाया दम्बान्धवाः सुपर्णयक्षगन्धर्वापिशाचोरगराक्षसाः अष्टौ ताः पितृभिः सार्धमासन्यादेवयो नयः स्वायम्भुवेन्दरेतीताः प्रजास्तासां सहस्रशः प्रभावरूपसम्पन्ना आयुषा च बलेन च विस्तरादिह नोच्यन्ते माप्रसंगो भवेदिह स्वायम्भुवो विसर्गस्तु विज्ञेयः साम्प्रतेनः अधीतो वर्तमानेन दृष्टो वैवस्वतेन सह प्रजाभिर्देवताभिश्च ऋषिभिर्पितृभिः सह तेषां सप्तर्षयः पूर्वमासन्ये तान्निबोधत भृग्वङ्गिरामरीचिश्च पुलस्त्यः पुलःक्रतुः अत्रिश्चैव वसिष्ठश्च सप्तस्वायं भुवेत्तरे आग्नेध्रश्चाग्निबाहुश्च आग्ने मेधामेधातिथिर्वसुः ज्योतिष्मान् द्युतिमान्हव्यः सवनःसत्र एव च मनोस्वायम्भुवस्य इदे दशपुत्रा महौजसः वायुवेगा महासत्वा राजान प्रथमेन्दरे सासुरं सुरं तत्सुगन्धर्वं सयक्षो रगराक्षसं सपिशाच मनुष्यं स सुपर्णाप्सरोगणं न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि बहुत्वान्नामध्येयानां सङ्ख्या तेषां कुधकुले प्रजा युगाख्यास्तु आस्सन् स्वयं भुवेन्तरे कालेन महदातीता उचुहु का भगवान काल अयनाब्दुगक्रम ऋष ऊचु कगवान्काूताप कसि कितम किम से चक्षुका मूर्तिवयवा स्मृता कोस्यात्मा ब्रूहि तत्वतः सूत उवाच उवाचयता काल सद्भाव्रुवाच्वधार्यता सूर्योंमादि संख्या चक्षुस उच्य से मूर्तिमेशय्स् सह संवत्सरसत नाम चास्कत्मक सांप्रतागतीत काला सजापति पंच था प्रविभक्ता तो दिवसार्धमासमासैश्च ऋतुभिस्तयनैस्तथा संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः यड्वसरस्तृतीयश्च चतुर्धश्चानुवत्सरः पञ्चमो वत्सरस्तेषां कालस युगसंज्ञितः तेषां तत्त्वं प्रवक्ष्यामि कीर्त्यमानन्निबोधत क्रतुरग्निस्तु यः प्रोक्तः सदु संवत्सरो मदः आदिते यस्त्वसौ सूर्यकालाग्निः परिवत्सरः शुक्लकृष्णगतिश्चापि अपां सारमयःखगः इडावत्सर स इवत्सर सोम पुराणे निश्चय गचा पवदे लोकांस्तनु सप्तस अच्लोक स वायुरवत्सर अहंकारा दुदग्रृद्र संभू ब्रमणस्तु सरुद्रो वत्सरत्तेषां विज्ञेयो नीलोकितः स तत्त्वं तस्य वक्ष्यामि कीर्त्यमानं निबोधत अङ्गप्रत्यङ्गसंयोगात् कालात्मा प्रपितामहः ऋक्सामयजुषां योनिः पञ्चानां पदिरीश्वरः सोग्न कालच्च संभूदिस्जापति प्रोक्र सूर्ययो सूर्यो निर्मनीषि यस्काल विभागायनोरपी ग्रहण क्षत्रशतोष वर्षा कर्मण तथा यो निःसप्रविभागानां दिवसानां च भास्करः वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः एको नैकोद्ध दिवसो मासोद्धर्तुपितामहः आदित्य सविदा भानुर्जीवनो ब्रह्मसत्कृतः प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः ताराभिमानीविज्ञेयो द्वितीयः परिवत्सरः सोमः सर्वौषधिपदिर्यस्मात् स योगक्षेमकृतीश्वरः आवेक्षमान आवेक्षमाणसदं बिभर्ति जगदंशुभिः तिथीनां पर्वसन्धीनां पूर्णिमादर्शयोरपि योनिर्निशाकरो यश्च अमृतात्मा प्रजापतिः तस्मात् स सोमस्मृत इड्वत्सरात्मकः सनादानोदाकर्मा लोके सर्वचे प्रवर्तक पंचाचेमनोर्बुस्मृतिबलाम सन काल क्रिया संपयन सर्वात्माश वर्तदे सप्त आवह प्रवहा चोपकार सप्तस विधा सर्वूताभंजन योनिपूमेरवेशंद्रमस वायुः प्रजापतिर्भूतो लोकात्मा प्रपितामहः अहोरात्र करस्तस्मात् स वायुरनुवत्सरः ये पदयश्चत्वार उपपक्षजाः पितरसर्वलोकानां लोकात्मानः प्रकीर्तिताः ध्यायतो ब्रह्मणो वक्त्रा समभवद्भवः ऋषिर्विप्रा महादेवो हुतात्मा प्रपितामहः ईश्वरसर्वभूतानां प्रणवो योधपठ्यते आत्मा वेशेन भूतानामङ्गप्रत्यङ्गसम्भवः उन्मातको नुग्रहृद्रुद्रो वत्सर उच्यते सूर्यश्च चन्द्रमाश्चाग्निर्वायुरुद्रस्तथैव च युगाभिमानीकालात्मा नित्यं संक्षयकृद्विभुः रुद्रप्रविष्टो भगवान् जगत्यस्मिन् स्वतेजसा आश्रयान्मयि संयोगातनुभिर्नामभिस्तथा ततस्तु लोकानुग्रहकारकमच पितृव कालचय तस्माव सर्वद्रस्त विद्द्भिज्यतः पति सगवान्जेश प्रजापति भावन सर्वभूतानां सर्वात्मा नीललोहितः औषधीप्रतिसन्धत्थे रुद्रः क्षीणाः पुनः पुनः प्रजापदिमुखैर्देवैः सम्यगिष्टफलार्थिभिः त्रिभिरेव कपालैश्चत्रयम्बकैरौषधीक्षये इज्यदे इज्यते भगवान् यस्मात्तस्मात् त्र्यम्बग उच्यते गायत्री चैव तिष्ठुप् च जगति चैवया स्मृताः त्र्यम्बका नामतः प्रेम्णा योनयस्ता वनस्पतेः ताभिरेकत्वभूतादिस्त्रिविधाभिस्वीर्यतः त्रिसाधनः पुरोडाशस्त्रिकपालः स वैस्मृतः त्र्यम्पकस्स पुरोडाश्यस्तेनैष त्र्यम्बकस्मृतः इत्येतत् पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः यश्चैष पञ्चधात्मा वै प्रोक्तः सैकषट्को विजज्ञेथ मध्वादि ऋतुसंज्ञकः ऋतु पुत्रार्थवाः पञ्च इति सर्गसमासतः इत्येष बहुमानो वैप्राणिनां जीवितानि च नदी वेग इवासकृतकालोधावधि संहरन् ये तेषां यदपत्यं वै तदशक्यं प्रमाणतः बहुत्वात्परिसङ्ख्यातुं पुत्रपौत्रमनन्तकम् इमं वंशं प्रजेशानां महदः पुण्यकर्मणां कीर्तयन्पुण्यकीर्तीनां महदीं सिद्धिमाप्नुयात् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्खपादे कालसद्भाववर्णनं नाम त्रयोदशोऽध्यायः ॐ